नमो नमः नमो नमः नमो नमः स्वागतं सर्वेषां स्वागतम् आरम्भं कुर्मः नमो नमः भारतमहोदय सर्वेषां स्वागतम् आरम्भं कुर्मः नमो नमः वस्तुमहोदय नमो नमः अस्तु अधुना विणा भगिनी भवती वदति वा प्रार्थनया आरम्भं कुर्मः अस्तु भगिनि शुक्लाम् वरदरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदरम् ध्याये सर्वविघ्नोपशान्तये या तुन्दे नु या शुभ्रवस्त्रान्विता या वीणा या श्वेतपद्मासना या ब्रह्माश्चुतशङ्करप्रभृतिभिः देवैः सदा पूजिता सा माम् पातु सरस्वती भगवती निश्येषजाड्यापः शान्ताकारं भुजवशयनम् पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् लक्ष्मीकान्तं कमननयनं योगिहृद्यानगम्यं वन्दे पुष्पं गोभयहरं सर्वलोकैकनाथम् हरिः ओं श्रीगुरुभ्यो नमः धन्यवादाः नमो नमः आगतं सर्वेषां पुनः एकवारम् अस्तु मम नमस्कारः शामला भगिनी मम ध्वनिः सम्यक् श्रूयते वाूयते सम्यक् श्रूयते किञ्चित् अत्र समस्या अस्ति मम सङ्गणके अस्तु हा अधुना Uh, सप्तमी विभक्ति अस्माकं विषयः अस्ति सप्तमीविभक्ति तत् तत्र वयं दृष्टवन्तः सप्तमी विभक्ति तत्र भिन्नानि पदानि इत्युक्ते तत्र अकारान्तपुल्लिङ्गी अस्ति चेत् कारान्तनपुसकलिङ्गी अस्ति चेत् अनन्तरम् इकारान्त ईकारान्त ऊकारान्त नपुसकलिङ्गी क्षम्यतां तत्र पुल्लिङ्गी वा स्त्रीलिङ्गी वा तत्र नपुंसकलिङ्गि शब्दाः एतत् सर्वं वयं दृष्टवन्तः सप्तम्यन्तपदं कथम् अधुना तस्य पुनरावर्तनं कृत्वा वयम् अग्रेसरेम सप्तमी विभक्ति एव अस्माकम् अद्यदिनस्य अपि विषयः अधुना जलम् अस्ति अवधानं ददातु तत्र मौखिकरूपेण एव पुनरावर्तनं वयं कुर्मः अद्य दिने हा जलम् अस्ति द्रोणीः अस्ति जलम् अस्ति द्रोणी अस्ति द्रोणी, द्रोणी इत्युक्ते बकेट, हा जलम् अस्ति द्रोणी अस्ति अधुना कथं वदामः अहं वक्तुम् इच्छामि तत्र द्रोणी अस्ति द्रोणी अस्ति तस्यां जलमस्ति अधुना द्रोणी सप्तम्यन्तपदं द्रोणी एतस्य सप्तम्यन्तपदम् उपयुज्य mm -hmm. वाक्यं कथं भवितुम् अर्हति राधाभगिनी वदति द्रो... वा uh, uh, द्रोण्यां जलमस्ति जलं द्रोण्याम् अस्ति उत्तमम् अधुना रमा भगिनी वाटिका अस्ति वाटिका अस्ति बालकाः सन्ति कथं वदामः रमा भगिनी वाटिका अस्ति बालकाः बालकाः सन्ति तत्र बालि बालकाः वाटिका वाटिकां वाकारान्तं वाटिकाः बालकाः बालकाः क्रीडन्ति बालका पुनः एकवारं सम्पूर्णं वाक्यं वदति वाटिका वाटिकायां मध्ये वाटिकायां मध्ये या तत्र मध्ये एतस्य आवश्यकता नास्ति वाटिकायां ना वाटिकायाम् इत्युक्ते सब्सक्षम। सप्तमी सप्तमी विभक्तिस्थानं दर्शयति किं वाटिकायां बालकाः वाटिकायां बालकाः क्रीडन्ति क्रीडन्ति उत्तमम् अधुना तत्र गीताञ्जलिभगिनी वक्तुं न शक्नोति इति प्रेषितवती अधुना भारतमहोदय भारतमहोदय हरि ओम् महोदय अहं शक्नोति वा गीताञ्जलिभगिनी अस्तु अस्तु अस्तु तत्र फलानि सन्ति शाखाः सन्ति शाखाः सन्ति फलानि सन्ति अधुना वाक्यरचनां करोतु शाखाः फलानि फलानि शाखा फलानि uh, uh, Shakh, शाखा शाखे सन्ति शाखाः शाखा एका इति अहं शाखासु फलानि उत्तमं शाखासु फलानि सन्ति वा फलानि शाखासु सन्ति उत्तमम् उत्तमम् अधुना तत्र भारत एव तत्र गीताञ्जलिभगिनी गीताञ्जलिभगिनी अनन्तरं भरत्महोदय गीताञ्जलिभगिनी अधुना तत्र गिरि गिरि इति अस्ति हा गीताञ्जलिभगिनी गिरि गिरिः गिरि इत्युक्ते पर्वतम् पर्वतः अस्ति गिरिः इति रि इति इकारान्तपुल्लिङ्गीशब्दगिरिः इति अहम् उक्तवती तत्र पर्वतः गिरिः तत्र वह् दृश्यते गिरेः वन् वन्य दृश्यते पुनः एकवारं वदतु गिरेः वन्ये दृ दृश्यते न तत्र भवति गिरौ इति भवति गिरौ शक्त गिरौ वह्ेः दृश्यते हा अवगत कष्टमस्ति अधुना भारतमहोदय भारतमहोदय तत्र ग्रन्थः अस्ति ग्रन्थः अस्ति अधुना अहं वदामि ग्रन्थाः सन्ति तत्र बहवः ग्रन्थाः सन्ति तत्र ज्ञानं वर्धते <tum> uh, listen, uh, <coughs> ं नालेज् वर्तते कथं वदामः भारत् महोदय ग्रन्थ ज्ञानं ग्रन्थः ग्रन्थेषु उत्तमं ग्रन्थेषु वाक्यं पूर्णं करोतु प्राप्नोमि ग्रन्थेषु ज्ञानं वर्तते इति ग्रन्थेषु ज्ञानं वर्तते ओके वर्तते योग्यं योग्यं अधुना वीणा भगिनी वीणा भगिनी अत्र तत्र, तत्र, तत्र नाविकाः सन्ति नाविकाः सन्ति नद्यः अपि सन्ति नद्यः सन्ति नाविकाः अपि सन्ति नाविकाः इत्युक्ते भवती जानाति खलु नाविकाविकाः सन्ति नद्येषु नाविकाः सन्ति वा पुनः एकवारं वदतु नद्येषु नद्यः इत्युक्ते तत्र बहुवचनान्तरूपम् अधुना नदीशब्दस्य सप्तमीरूपाणि प्रथम एकवचनं द्वितीयवचनं द्विवचनं बहुवचनं किञ्चित् स्मरणं भवति वा तस्य नदीशब्दस्य किं भवति <laughs> प्रयत्नं करोतु उच्यता अहं वदामि अत्र पश्यतु शाखाविषये वयं किं दृष्टवन्तः शाखासु इति भवति मालासु शाखासु नदीशब्दस्य कृते किं भवति नद्येषु वा भगिनी नदीषु इति भवति नदीषु नाविकाः सन्ति नदीषु नाविकाः सन्ति अधुना जयन्तीभगिनी जयन्ति भगिनी वक्तुं शक्नोति वा जयन्ती भगिनी नमस्ते बेनी. Uh, नमस्ते तर् माता अस्ति जयन्तीभगिनी माता अस्ति तत्र स्नेहः वर्तते कथं वदामः स्नेहस्नेहभावन मातरी स्नेहभावनं वर्धते आ मातरी इति यदि रुकारान्तश्रीलिङ्गि शब्दः अस्ति चेत् तत् मातरी मात्रोः मातृषु इति भवति अवस्तु महोदय धन्यवादाः अवस्तु महोदय तत्र कृषिक्षेत्रमस्ति कृषिक्षेत्रं फिल्ड् इति अस्ति तत्र सस्यानि सन्ति नपुसकलिङ्गे शब्दः अकारान्तनपुसकलिङ्गि क्षेत्रं तत्र अकारान्तनपुसकलिङ्गे इत्युक्ते क्षे शे... क्षेत्र इति प्रातिपदिकं तत्र क्षेत्रम् इति प्रथमाविभक्त्यन्तरूपं तत्र बहवः बहूनि क्षेत्राणि सन्ति तत्र सस्यानि अपि सन्ति कथं वदामः क्षेत्रे सस्यानि सन्ति परन्तु मम समीपे केवलम् एकं क्षेत्रमिति न बहूनि क्षेत्राणि सन्ति क्षेत्रेषु सस्यानि उत्तमम् उत्तमम् क्षेत्रेषु सस्यानि सन्ति oh. उत्तमम् ah? शामला अधुना श्यामलाभगिनी वदेत् श्यामलाभगिनी श्यामलाभगिनी श्यामलाभगिनी योजितवती खलु अत्र न दृश्यते अस्तु चिन्ता मास्तु अधुना अस्माकं पश्यन्तु एतत् सर्वं वयं कृतवन्तः किञ्चित् पुनः स्मारणं भवेत् अद्यदिने अपि गृहाभ्यासरूपेण एकवारं तस्य रिविजन् इति वयं वदामः चेत् पुनः एकवारं तस्य स्मरणं करोतु इति सर्वे कुर्वन्तु इति वदामि अधुना पश्यन्तु आकारान्तपुल्लिङ्गीशब्दः अस्ति चेत् तत्र देवः अस्ति चे देवे देवयोः देवेषु इति भवति अनन्तरम् इकारान्तपुल्लिङ्गी यथा गिरि वयं दृष्टवन्तः गिरिः अस्ति वा मुनिः अस्ति तदा मुनौ इति मुनौ मुन्योः मुनिषु मुनिषु इति रूपं भवति तत्सर्वम् आकारान्तश्रीलिङ्गिशब्द शाखा माला तत्र कथं भवति शाखायां शाखयोः शाखासु गीतायां गीतयोः गीतासु तथैव इकारान्तश्रीलिङ्गिशब्दः अस्ति चेत् यथा मति ह तत्र किं भवति मत्यां मतौ रूपद्वयं मत्यां मतौ मत्योः मतीषु एवं भवति इकारान्तदीर्घ इकारान्तश्रीलिङ्गशब्द नदी नदी नदी इति अस्ति चेत् नद्यां नद्योः नदीषु रूपकारान्तशब्द माता मातरी मातृ मातृषु एवं सर्वं वयं दृष्टवन्तः तथैव नपुंसकलिङ्गिशब्दस्य कृते अपि तथैव भवति पुल्लिङ्गिशब्द तस्य सप्तम्यन्तपदं यानि सन्ति तानि एव भवन्ति अधुना किञ्चित् अग्रे सरेमः समानानि एव वाक्यानि वयं पश्यन्तु हा जलमस्ति द्रोणी अस्ति जलमस्ति द्रोणी अस्ति जलम् अस्ति अस्ति वयं वाक्यं तत्र नदी द्रोण्यां जलम् अस्ति तदपि वयं कृतवन्तः जलमस्ति द्रोणी अस्ति द्रोण्यां जलमस्ति अधुना किञ्चित् परिवर्तनं कृत्वा अहं जलमस्ति द्रोणी अस्ति द्रोणी अस्ति तस्याम् जलमस्ति द्रोणी अस्ति तस्याम् जलम् अस्ति अधुना तस्याम् इत्युक्ते किम् कोऽपि वदति वा द्रोणी स्थाने अहं तस्यामिति पदम् उपयोजितवती किमर्थम् हा वदतु दनामशनामशब क्या का विशेषता शब्द से अति तद तशे्यपद्रोणी विशेषपदीलिंगीशब तत् द्रोणीशब्द विशेषण संस्कृतभाषया कथं वक्तव्यं तत्र द्रोण्यामिति वदामि चेत् तस्य सर्वनामपदस्य अपि सप्तम्यन्तरूपं तस्यामेव भवति तस्या इति न वा तस्याः एवं न वा सा इति न किं भवति द्रोणी तस्य एतद् वा तद् शब्दस्य अपि सप्तम्यन्तपदं द्रोण्यां तस्याम् इतोपि एकम् उदाहरणं ग्रन्थः अस्ति ग्रन्थः अस्ति तस्मिन् ज्ञानमस्ति ग्रन्थः अस्ति पूर्वं वयं किं दृष्टवन्तः ग्रन्थः अस्ति ग्रन्थे ज्ञानम् अस्ति अधुना किं वदामि ग्रन्थः अस्ति तस्मिन् अस्ति अधुना वदतु तस्मिन् इत्युक्ते किम् किमर्थं तत् तस्मिन् शब्दस्य योजना अत्र आम् पुल्लिङ्गिशब्दः आम, ग्रन्थः आम् आम् तस्मिन् एतत् शब्दस्य तद् शब्दस्य शब्दम्यन्तपदं तस्मिन् तस्मिन् तयोः तेषु अतः तस्य अत्र योजना कृत्वा अहं वदामि ग्रन्थः अस्ति तस्मिन् ज्ञानम् अस्ति वदतु जनन्ति भगिनी वक्तुम् इच्छति वा किमपि अस्तु अधुना यथा तस्मिन् तस्मिन् तस्यामिति वदामि तद् शब्दस्य रूपाणि तथैव एतत् शब्दस्य एपि एतादृशानि रूपाणि भवति एतद् तस्मिन् पुल्लिङ्गिशब्द तस्य भवति एतस्मिन् तस्याम् एतस्याम् तस्मिन् एतस्मिन् तस्याम् एतस्याम् तत्र ताडिका अस्ति अहं ता ताडिकां दर्शयामि दर्शिष्यामि अनन्तरम् परन्तु किञ्चित् मौखिकरूपेण वयम् स्मरणस्य प्रयत् स्मरणं कारयामि किञ्चित् हा तस्मिन् एतस्मिन् तस्याम् एतस्याम् अधुना हा अहं वदामि एषः वृक्षः अस्ति एषः वृक्षः अस्ति एतस्मिन् वृक्षे मर्कटाः सन्ति किम् अभवत् अत्र एतस्मिन् वृक्षे मर्कटाः सन्ति एषः वृक्षः अस्ति एतस्मिन् वृक्षे मर्कटाः सन्ति अधुना एतस्मिन् वृक्षे किं प्रयोजनम् कोऽपि वदतु अन्यत् कृत्वा सप्तमी सब, विभक्ति एतत् एतस्मिन् सप्तमी विभक्ति एतत् शब्दस्य वृक्षे वृक्षशब्दस्य सप्तमी विभक्ति अत्र वृक्षः इति विशेष्यपदम् एतस्मिन् किं भवति विशेषणपदम् अब्जेक्टिविटि तत्र वृक्षे एतस्य सप्तमी एकवचन तथैव एतत् पुल्लिङ्गिशब्दस्य अपि सप्तमी एक वचन हम्म अधुना अहम वनाक वाक्य पाठशाला त्र छा साठशाला तत्र छा स अधुना भारतमहोदय प्रयत्नं करोति वाक्यरचनां करोति वा भगिनी एषा पाठशाला तत्र छात्राः सन्ति रैट् छात्राः पाठशाला पाठशालायां पाठशालायां सन्ति योग्यं परन्तु तत्र अहं कं किं एषा पाठशाला इत्युक्ते पाठशालायां तत्तु बहु सम्यक् परन्तु एषा शब्दस्य अपि सप्तम्यन्तं पदे पदं भवेत् खलु किं भवति एषा शब्दस्य सप्तम्यन्तं पदम् एतस्मिन् एतस्मिन् इति पुल्लिङ्गी पाठशाला इति श्रीलिङ्गी तत्र भवति एतस्यां तालिका तालिका अस्ति महोदय अहम् अनन्तरं तत्र डिस्प्ले करोमि परन्तु किञ्चित् पुनस्मारणम् अत्र मौखिकीदृष्ट्या एतस्मिन् पुल्लिङ्गी एतस्यां श्रीलिङ्गी अधुना वाक्यरचना एतस्यां पाठशालायां छात्राः सन्ति एकवारं वदति वा पुनः एकवारम् एतस्यां पाठ पाठशालायां छात्राः सन्ति बहु सम्यक् बहु सम्यक् अधुना अत्र हा जयन्ति भगिनी पाठशाला छात्रा सी बहुवचना वाक्यरचना करो कौ पाठशालाक वो बीनी वाक्यक पाठशाला छात्रा सी बहु एतेषु पाठशाला पाठशालायां छात्राः सन्ति तत्र द्विवचनान्त पदम् बहुवचनान्तं पदं पाठशाला एतस्य किं भवति पाठशालायां पाठशालासु तथैव एतत् शब्दस्य किं भवति एतासु पाठशालासु सन्ति अत्र एतासु इति अस्ति मालासु गीतासु शु कुत्र आगच्छति पुल्लिङ्गिशब्दस्य एतेषु ग्रन्थेषु वृक्षेषु हा परन्तु अत्र किं गीतासु मालासु पाठशालासु हा अधुना पुनः एकवारं सम्पूर्णं वाक्यं कृपया वदतु आं एता एतासु पाठशालासु छात्राणां सन्ति छात्राः सन्ति छात्राः सन्ति छात्राः सन्ति अधुना इत्युक्ते तस्मिन् एतस्मिन् तस्या एतस्य तेषु एतेषु तासु एतासु किम् उक्तवती अहं सर्वनामपदानि सर्वनामपदानि किमर्थं तत्र अकारांत शब्द, श्रीलिङ्गी आकारान्तशब्द तस्य hmm. सप्तम्यन्तम् रूपं कथं भवति अतः अस्तु हा अधुना धन्यवादः धन्यवाद अधुना तत्र राधाभगिनी राधाभगिनी तत्र युद्धभूमिः अस्ति युद्धभूमिः अस्ति हा युद्धभूमिः अस्ति तत्र सैनिकाः सन्ति एकनिमिषं हा युद्धभूमिः अस्ति तत्र सैनिकाः सन्ति तथैव हा कथं वदामः सैनिकाः कुत्र सन्ति सैनिकाः युद्धभूम्यां सन्ति उत्तमं सैनिकाः युद्धभूम्यां सन्ति अधुना अधुना हा युद्धभूमिः अस्ति सैनिकाः सन्ति सर्वनामपदस्य योजनेन वाक्यरचनां करोति वा भवति एव युद्धभूमिः अस्ति सैनिकाः सन्ति <laughs> युद्ध युद्धभूमिः अस्ति तस्मिन् सैनिकाः सन्ति तस्याम् इति भवति युद्धभूमिः इति श्रीलिङ्गिपदं खलु अस्तु तस्मिन् कस्याम् okay. एतस्मिन् एतस्याम् अस्तु स्पष्टमस्ति अधुना एतस्यां uh -huh. वातस्यां सैनिकाः सन् अस्तु भगिनी अस्तु अधुना वीणा भगिनी विणा भगिनी तत्र To open up mixed... <laughs> तत्र कमलानि विकसन्ति कमलानि विकसन्ति कमलानि तत्र तडागः अस्ति तडागः अस्ति तत्र कमलानि विकसन्ति अधुना वदति वा तलाग वा तडाग तडागः तडागः भगिनि तलेगेषु कमलानि विकसन्ति तडागः वचनं किमस्ति एकवचनं तडागे कमलानि विकसन्ति योग्यं तडागे कमलानि विकसन्ति सत्यम् अधुना तडागः अस्ति कमलानि अपि सन्ति तडागे कमलानि सन्ति अधुना तडागः अस्ति तत्र तडागस्य स्थाने सप्तम्यन्तं सर्वनामपदम् उपयुज्य वाक्यं वदति वा एते तलागे कमलानि विकसन्ति वा तत्र तत्र सप्तमी किं भवति तस्मिन् तडागः अस्ति तस्मिन् कमलानि विकसन्ति योग्यमस्ति वा हा एकवारं वदतु एकवारं पुनः एकवारं वदतु तडागः अस्ति तस्मिन् तडागे कमलाः विकसन्ति सम्यक् तस्मिन् तडागे कमलानि विकसन्ति विकसन्त तस्मिन् तडागे कमलानि विकसन्तु अस्तु धन्यवादः धन्यवादः अधुना ओगस्ट् महोदय ओगस्टमहोदय अस्ति वा अस्तु भगिनि अत्र ओगस्ट् महोदय तत्र धेनु अस्ति धेनु धेनु अस्ति किञ्चित् भिन्नप्रकारेण भवति अस्तु तत् न स्वीकुर्मः भिन्नप्रकारेण वक्तुम् इच्छामि सृष्टिः अस्ति सृष्टि अस्ति सृष्टिः सृष्टि तत्र बहवः वृक्षाः सन्ति सृष्टि इत्युक्ते नेचर् तत्र बहवः वृक्षाः सन्ति कथं वदामः सृष्टि सृष्टि अस्ति वृक्षाः तत्र सृष्टिः इकारान्तश्रीलिङ्गी तत् भवती सृष्टौ वा सृष्ट्यां रूपद्वयं सृष्ट्यां वा सृष्टौ वृक्षाः सन्ति सुमहोदय सृष्ट्यां सृष्ट्यां सृष्ट्यां सकार ऋकार अनन्तरं षकार तकार यकार सृष्ट्याम् इति भवति सृष्ट्यां सृष्ट्यां किमस्ति वृक्षाः सन्ति अस्तु अधुना पश्यन्तु सर्वे एकवारम् आगस्ट् महोदय भवानेव पठति वा, वा एतत् सर्वम् अधुना अहं तालिकां दर्शयामि पठति वा महोदय तस्मिन् तयोः तेषु तस्मिन् एतयोः एतेषु कस्मिन् तयोः तेषु तस्यां तयोः तासु एतस्याम् एतयोः एतासु कयोः कासु अधुना तत्र तस्मिन् इति पुल्लिङ्गी एतदशब्दस्य सप्तमी एतस्मिन् एतत् शब्दस्य पुल्लिङ्गी सप्तम्यन्तपदानि कस्मिन् इति किमस्ति महोदय कस्मिन् कयो केषु प्रश्नार्थक सर्वनाम किमस्ति प्रश्नार्थक सर्वनाम यदा वयं प्रश्नः पश्यन्तु अं वदामि तडागे कमलानि विकसन्ति तडागः अस्ति तस्मिन् कमलानि विकसन्ति कमलानि कस्मिन् विकसन्ति इति प्रश्नः कमलानि तड़ागे विकसा उत्तर हाँ पशन सर्े अधुना वाक्यरचना सज्जा तड़ाग अस्ट तड़ागे कमला सी तड़ाग अस्ला सी एन तड़ागे कमला सी कमलानि कस्मिन् सन्ति कमलानि तडागे सन्ति एतत् अवगतम् स्पष्टमस्ति अवश्य महोदय अधुना श्रीलिङ्गिरूपाणि पश्यन्तु तस्याम् एतस्यां कस्याम् श्रीलिङ्गी पाठशाला अस्ति तस्याम् छात्राः सन्ति छात्राः कस्याम् सन्ति छात्राः पाठशालायाम् सन्ति जलमस्ति द्रोणी अस्ति जलम् द्रोण्याम् अस्ति द्रोणी अस्ति तस्याम् जलम् अस्ति जलम् कस्याम् अस्ति जलं द्रोण्या अस्ति प्रश्नार्थ यथा पुल्लिङ्गि तद् शब्दस्य त्रीणि रूपाणि सप्तम्यन्त तस्मिन् तयोः तेषु एतत् शब्दस्य त्रीणिरूपाणि एतस्मिन् एतयोः एतेषु तथैव प्रश्नार्थ कः कौके कं कौकान् एतत् सर्वं तस्यापि प्रश्नार्थकरूपाणि पुल्लिङ्गि सप्तम्यन्तपदं कस्मिन् कयोः केषु कस्मिन् कयोः केषु तयोः एषु वृक्षेषु एतयोः वृक्षयोः एतेषु वृक्षेषु केषु एतेषु वृक्षेषु एवं सर्वम् अस्ति स्पष्टं वा दृष्टमस्ति वा सर्वेषाम् अवगमनं स्पष्टतया अभवत् इति मन्ये हा भगिनि एतस्य वदस्य एकं प्रश्नमस्ति भगिनि एतेषु रूपेषु नपुंसकलिङ्गम् अपि भवति वा तत्र पुल्लिङ्गी यथा पश्यन्तु पुल्लिङ्गशब्दस्य कृते यानि रूपाणि तृतीयान्तपदतः आरम्भ सप्तम्यन्तपदपर्यन्तं तथैव नपुसकलिङ्गी शब्दस्य कृते अस्ति खलु वनं वने वनानि वनं वने वनानि प्रथमा द्वितीया भिन्ना अनन्तरं किं यथा रामः रामौ रामः रामं रामौ रामान् रामा रामा रामेण रामाप्यां राम तत् समान एव तथैव वनशब्दस्य भवति इत्युक्ते तस्मिन् पुल्लिङ्गिशब्दस्य कृते अपि नपुसकलिङ्गिशब्दस्य कृते अपि तथैव पुल्लिङ्गिशब्दस्य तथैव एतस्मिन् पुल्लिङ्गिशब्दस्य कृते तथैव नपुसकलिङ्गिशब्दस्य कृते कस्मिन् प्रश्नार्थं पुल्लिङ्गिशब्दस्य कृते नपुसकलिङ्गिशब्दस्य कृते हा यदा अहं वदामि क्षेत्रं हा क्षेत्रं षेत्रम् अस्ति क्षेत्रमस्ति क्षेत्रे क्षेत्रे सस्यानि सन्ति क्षेत्रम् अस्ति कस्मिन् सस्यानि सन्ति एतस्मिन् क्षेत्रे सस्यानि सन्ति कस्मिन् सस्यानि सन्ति एतस्मिन् क्षेत्रे सस्यानि सन्ति प्रष्टमस्ति अस्तु भगिनि हा हा धन्यवादः भगिनि हा धन्यवादः अधुना एकैकं राधाभगिनी आरम्भं कुर्मः अधुना वाक्यरचनां करोतु अनन्तरं कथां प्रति गच्छामः एकमेकं एकम, तस्मिन् स्वीकरोतु वा एतस्मिन् वा कस्मिन् तयो तयोः कयो तेषु एतेषु केषु तस्यां श्रीलिङ्गी वा नपुसकलिङ्गी वाक्यरचनां करोतु हा आं भगिनि चिन्तनं करोतु एकनिमिष भगिनि चिन्तनं करोतु अहम् आगिष्य आगमिष्यामि एकनिमिषम् आम् भगिनि ी नास्ति बी क्षम्यतां क्षम्यतां हा राधा भगिनी वदति वा आं भगिनी आं वदतु तस्मिन् वृक्षे वानराः सन्ति तस्मिन् वृक्षे वानराः सन्ति अस्तु अस्तु अधुना एकमेकं वदामि वदतु तस्मिन् गृहे बहूनि फलानि सन्ति उत्तमम् रमभगिनी कस्मिन् कस्मिन् गृहे बहूनि फलानि सन्ति प्रश्नः अधुना सम्यक् अधुना सर्वेषां कृते वदामि तत्र तयोः एतयोः कयोः तेषु एतेषु केषु तत् तासु एतासु कासु तेषामपि उपयोज्य कृत्वा वाक्यानि वदन्तु सर्वे अस्तु सम्यगस्ति रमा भगिनी अस्तु अधुना गीताञ्जलिभगिनी वदति वा गीताञ्जलिभगिनी भारतमहोदय भवान् वदति वा यत्नं करोमि वृक्षे पर्णानि सन्ति ऐ केन् तस्मिन् पर्णानि सन्ति सन्ति तस्मिन् फलानि सन्ति अधुना वृक्षद्वयमस्ति तत् कथं वदति प्रयत्नं करोति वृक्षद्वयमस्ति तत्र वृक्षयोः बहु सम्यक् वृक्षयोः फलानि सन्ति उत्तमं विना भगिनी भवती वदति वा हा भगिनी वदतु एतस्यां लतायां पुष्पाणि सन्ति उत्तमम् एतस्यां लतायां पुष्पाणि सन्ति कस्यां लतायां पुष्पाणि सन्ति एतस्यां लतायां लतां बहु सम्यक् उत्तमं जयन्ति भगिनी वदति वा धन्यवादः आं भगिनी वदामि एतेषु पुस्तकेषु श्लोकानि सन्ति श्लोकाः सन्ति श्लोकः श्लोकाः एतेषु एतेषु पुस्तकेषु श्लोकाः सन्ति तस्मिन् ऐ मीन् मीनाः मीनाः केषु स्थले ऐ मीन् केषु वसन् वसन्ति वसन्ति मीनाः किं वदति केषु केषु वसन्ति मीनाः केषु वसन्ति भवती किम् उत्तरम् इच्छति मीनाः केषु वसन्ति सरोवरे वा तटे तटेषु वा तडागेषु इति भवति खलु किमर्थं तत् यदा अस्माकं प्रश्नः बहुवचनान्तम् अस्ति तत् सर्वनामपदं बहुवचनान्तं केषु इति तत् उत्तरमपि तत्र तडागेषु एव भवति खलु अस्तु अपेक्षितम् उत्तरं यत् अस्ति तदपि बहुवचनान्तं पदमेव भवति इतोपि एकं वदति वा आम् सासाम् उत्तमाः गुणाः सन्ति सासु uh, उत्तमाः गुणा ऐ I मीन् mean, uh, के कासु uh, उत्तमाः गुणाः सन्ति प्रश्नार्थपदम् सत्यं uh, सम्यक् सम्यक् योग्य तत्र तासु तासु इति बहुवचनान्तपुव धन्यवादः भगिनी सम्यक् धन्यवादः अधुना अवश्यमहोदय प्रयत्नं करोति वा वदति वा अवश्यमहोदय तस्यां पीठिकायां पुस्तकानि सन्ति तस्या पुनः एकवारं उत्तमं तस्याम् उत्पीठिकायां पुस्तकानि सन्ति उत्तमम् अधुना प्रश्नार्थ कर, करोति वा <sunshine> पुस्तकानि सन्ति सम्यक् कस्यां पुस्तकानि सन्ति उत्पीठिकायां पुस्तकानि सन्ति नो चेत् कस्याम् उत्पीठिकायां पुस्तकानि सन्ति एकस्याम् उत्पीठिकायां पुस्तकानि सन्ति अस्तु उत्तममस्ति उत्तमं धन्यवादः धन्यवादः श्यामला भगिनी तु उक्तवती अस्तु एतत् सर्वम् अस्माकं पुस्तके अस्ति कुत्र अस्ति पश्यामः अत्र अस्ति प्रश्नकर्म दृश्यते वा सम्यक् स्क्रीन् दृश्यते सम्यक् दृश्यते भगिनी दृश्यते न अत्र पश्यन्तु किमस्ति तत् एतत् कुर्मः अनन्तरं कथां प्रति स्वस्य वर्धनाय कुत्र कुत्र आसीत् हा तत् आरम्भं करोतु राधा भगिनी भवती आरम्भं करोति वा प्रथमं प्रश्नं तत् क्रमाङ्क षट् क्रमाङ्क स्वस्य वर्धनाय इति आं भगिनी पठतु स्वस्य वर्धनाय कुत्र कुत्र आसक्तिः भवतु आ, कुत्र कुत्र मास्तु इति वर्णयत् निर्णयत् हा इत्युक्ते किं भवन्तः सर्वे स्वस्य एव तत् किं वदामः तत्र आङ्ग्लभाषायां सेल्फ् जजिङ्ग् सेल्फ् जिङ्ग् इति अस्ति खलु असेस्मेण्ट् करणीयमस्ति तत्र किं स्वस्य वर्धनं भवेत् केषां गुणानां वर्धनं भवेत् केषां गुणानां वर्धनं न भवेत् इति अस्ति तत्र तालिका अपि अस्ति अत्र तथैव वदतु प्रथमम् उदाहरणार्थं धर्मे आसक्तिः भवतु अनन्तरं किमस्ति वदति वा आसक्ति इत्युक्ते किम् आसक्ति इत्युक्ते अस्माकं सि विशुड् हेव पर्टिक्युलर् ओर् स्टुडेण्ट् डेवलप्ड् इत्युक्ते इन्वाल्वमेण्ट् अटेच्मेण्ट् सत्यं सत्यं सत्यम् involvement is a better one. involvement okay okay um uh yani aakti bhavatu no sorry armen armen hi armen aakti hi bhavatu uh uh lobhe आसक्ति न भवतु त्यागे आसक्ति भवतु कीर्त्याम् आसक्ति भवतु परन्तु अत्र एकः विचारः एकं सत्कीर्ति भवेत् खलु आं न तु दुष्कीर्ति दुष्कृ आम् तत्र आसक्तिः भवतु साधना साधना साधनायाम् आसक्ति न भवतु साधनायां साधना इत्युक्ते इत्युक्ते ओ नाट् थिङ्ग्स् ओके साधना ओके साधनायाम् आसक्ति भवतु प्रयत्नं अहं हिन्दी मीनिङ्ग् साधनार् थिङ्ग्स् इति <laughs> पाठनं पाठने आसक्ति भवतु पठने पठने पठने पठने तु न पाठने अपि भवतु सर्वे अधुना भवती एव शिक्षिकां शिक्षिकरूपेण का कार्यं शिक्षिकारूपेण कार्यं कर्तुं समर्था तत् पाठने अपि आसक्तिः भवेत् पठने अपि भवति योग्य योग्यमस्ति उत्तमं धन्यवादः अधुना रमा भगिनी मोहतः आरम्भं कृत्वा वदति रमा भगिनी अस्तु भगिनि मोहे हा शक्तिः न भवतु न भवेत् न भवति न भवति शक्ति तत्सङ्गे सत्तंग, आसक्ति भवेत् पुण्यं पुण्ये आसक्ति भवेत् सति पापं पापे न भवेत् भोगे भोगे शक्ति न भवेत् शान्ति शान्तिः शान्त्याम् अशक्ति भवेत् वैट् निश्चयेन भवेत् धन्यवादः अधुना गच्छामः उत्तमम् अधुना कथां प्रति गच्छामः दानम् इति नाम्ना कथा पीताञ्जलि भगिनी भारतमहोदय भवान् आरम्भं करोति वा कश्चन राजा स्वस्य पठति वा अधुना ऐ केन् मेनेज् इट् कश्चन राजा स्वस्य गुरोः महात्म्यं महात्म्यं लाधमानः अश्लाघमानः अश्लायमानः सहर्षं गुरुवेकलवस्त्राणि दुकुल दुकुलवस्त्राणि उपाय उपायनत्वेन समर्पितवान् समर्पितवान् कश्चन राजा स्वस्य गुरोः महात्म्यं श्लाघमानः सहस्रं सहर्षं गुरवे दुकुलवस्त्राणि उपायनत्वेन समर्पितवान् इत्युक्ते तत्र गुरुः अस्ति गुरुः तत्र भूतकाल गुरुः आसीत् महान् गुरु इति अस्ति तत् शिष्य राजा तत्र राजा तत्र गुरोः महात्म्यं ज्ञात्वा तम् सुकूलवस्त्राणि इत्युक्ते तत्र बहुमूला बहुमूल्यानि वस्त्राणि उपायन् उपायन् इत्युक्ते दानम् इति रूपेण तत् समर्पितवान् इत्युक्ते दत्तवान् गुरवे इति चतुर्थी विभक्तिः गुरवे सः दत्तम् अनेन अग्रिमे किम् अनेन अनेन प्रमोदितः गुरुः स्त्राणि परिगृह्य परिगृह्य गृहं प्रति प्रस्थितवान् प्रमोदितः गुरुः इत्युक्ते मोदितः आनन्दितः आनन्दितः गुरुः परिगृह्य इत्युक्ते तत् स्वीकृत्य तद्गृहं प्रति प्रस्थितवान् मध्यमार्गे मध्यमार्ग मध्यमार्ग मध्यमार्गं मार्ग, तेन कश्चन भिक्षुकः द्रष्टः तेन मार्ग मध्यमार्गे भिक्षुकः दृष्टवान् उत्तमं दृष्टवान् सत्यं तस्य निर् नि वस्थायाः दर्शनात् गुरोः मनसि महती करुणा उत्पन्ना किमभवत् निर्गतिकावस्था निर्गतिकावस्था निर्गतिकावस्था इत्युक्ते तत्र सौरोस्टेट् तस्य भिक्षुकः तत्र सम्पन्नावस्था नास्ति तत्र निर्गतिकावस्था निर्ग निर्ग, निर्ग निर्गतिकावस्था ताम, दृष्ट्वा गुरोः मनसि महती करुणा उत्पन्ना करुणा इत्युक्ते किम् इति दया आम, आम् उत्तमं दया, दया दया हा अतः अतः सः स्वनिकटे राज्ञा एतानि राज्ञा राज्ञा दत्तानि गतानि वस्त्राणि तस्मिन् गत्वा अग्रे गतवान् किं कृतवान् सः स्वनिकटे स्वनिकटे मीन्स् क्लोज़र् टु हेम् राज्ञा दत्तानि इत्युक्ते किवन् बै किङ्ग् राज्ञा इति गिवन् बै चतुर्थी राज्ञा दत्तानि तस्मै दत्त्वा अग्रे स्य समीपे यानि वस्त्राणि सन्ति राज्ञा दत्तानि तानि वस्त्राणि सः कस्मै दत्तवान् भिक्षुकाय दत्तवान् मनसि यथा भवान् उक्तवान् मनसि दया उत्पन्ना अतः सः दत्तवान् वस्त्राणि अस्तु सम्यक् उत्तमम् धन्यवादः परेध्यवि तेनैव मार्गेण गच्छन् राजा गुरुवे उपायानि कृतानि दुकुलवस्त्राणि भिक्सुकेषु परि परिधृतानि दृष्टवान् इत्युक्ते किं परेध्यवी इत्युक्ते किं भगिनि ओके ओके अहं तेनैव मार्गेण गच्छन् राजा दृष्टवान् तस्मिन् द्राणि भिक्षुक भिक्षुकस्य समीपे दृष्टवान् भिक्षुकेन परिधृतानि हा भिक्षुकरिधृत परिधृतन् आस आसन् परिधृतानि वस्त्राणि दिक्षुक्लो भगिनि अस्तु अग्रिमे मया मया यत् गुरवे दत्तं तत् भिक्षुकस्य शरीरे दृ दृश्यते एतस्य तात्पर्य तात्पर्यं यत् मया दत्तं गुरुः भिक्षुकाय दत्तवान् इति मया यत् गुरवे दत्तं तत् भिक्षुकस्य शरीरे दृश्यते एतस् एते वस्त्राणि कथं भिक्षुकः भिक्षुकस्य शरीरे दृश्यते इति चिन्तितवान् हा तत् मया दत्तानि अहं दत्ता तु गुरुम् आसम् अहं तु गुरुम् दत्तवान् आसम् कथं तत् एतानि वस्त्राणि गु मम गुरुः भिक्षुकाय दत्तवान् इति गुरोः कृते अहं ददामि परन्तु गुरुः तु तत् एतानि वस्त्राणि भिक्षुकाय दत्तवान् में? एतस्य तात्पर्यं यत् मया दत्तं गुरुः भिक्षुकाय दत्तवान् इति सः चिन् सहाचिं, सः चिन्तितवान् मया दत्तं मया दत्तं वस्त्राणि भिक्षुकाय दत्तवान् गुरुः इति चिन्तितवान् एते चिन्तितवान् एतेन गुरुः एतेन गुरुः गुरु। एतेन हा एतेन गुरुः मम अपमानम् कृतवान् ए एव hmm. इति चिन्तयन् सः अतीव क्रुद्धः सञ्जातः ओ ओके okay. <laughs> hmm. राजः कुपितः अभवन् कुपितः ah, किमर्थं गुरुः मम अपमानं कृतवान् गुरोः कृते अहं वस्त्राणि दत्तवान् परन्तु गुरु तु तत्र भिक्षुकाय दत्तवान् आसीत् अतः सः कुपितः कुपितः सञ्चारः अस्तु योग्य धन्यवादः धन्यवादः अग्रिमे जयन्ति भगिनी पठति वा जयन्तीभगिनी आं बेनि आं बेनि कतिपय कतिपयदिना कतिपयदिनानाम् अनन्तरं राजा गुरवे उपाय अनन्त उपायनत्वेन स्वर्णकङ्कणं प्रदत्तवान् किञ्चित् दिना अनन्तरं राजा कृते उपायनत्वेन उपायं कर्तुम् इच्छि इच्छात्वेन स्वर्णकङ्गनं प्रतिदत्तवान् गुरुः गुरुः तत् स्वर्णकङ्गणं स्वीकृत्य आस्था आस्थान आस्थान तु निर्गतः गुरुः तु स्वर्णकङ्गनं स्वी स्वीकृत्य ऐ मीन् आस्थानतः बहिर् यस्थान राजा, उद्योगी कचि पुत्र्यावाहम कर्म क्लेश क्लेशदन mm -hmm. गुर ज्ञातवाजस्थन mm -hmm. राज, राजदान, राजधानी राजधानी यहाँ कार्य कौती तरह पुत्र्यावाहे किञ्चित् विवाह विवाहार्थं क्लेशः अनुभवन्ति इति गुरु अतः सः तत् राजस्थानस्य उद्योगिने अयच्छत् अतः गुरुः तस्य राजस्थानस्य उद्योगे कार्यं कर् तस्य कृते अयच्छत् अयच्छत् इति अधुना आरम्भतः किम् अभवत् राज्ञा दत्तानि वस्त्राणि भिक्षुकाय दत्तवान् अनन्तरं सुवर्णकङ्कणमपि कश्च कश्चन मनुष्य तत सह विवाहं कर्तुं किञ्चित् तस्य तस्य तत्र समस्या वर्तते अतः तस्मै दत्तवान इति एतावत् अधुना अग्रे योग्यं भगिनि धन्यवादः अधुरा अवस्टुमहोदय अवस्टुमहोदय पठति लितं विषयं ततः आरभ्य एतं विषयं ज्ञात्वा राजा गुरुम् आहूय अवदत् विषये ज्ञा गौरव भावनया मया भवते उपायनानि दत्तानि किन्तु भवान् तानि यथेश् याथेश यथेष्टम् अन्येभ्यः वितरन् अस्ति किम् एतत् उचितम् इति गुरु किम् उचितम् रैट् तत् मया दत्तानि पुरस्काराणि अन्येभ्यः भवान् दत्तवान् एतत् न उचितम् भवद्विषय विषयिण्या गौरवभावनया तत्र अस्ति तृतीया विभक्ति हा मया भवते भवति इत्युक्ते चतुर्थी उपायनानि उपायनानि उपायनम् इत्युक्ते पायनानि दत्तानि परन्तु अन्येभ्यः भवान् दत्तवान् आसीत् इति न उचितम् अस्तु आ, अस्तु अग्रिमे धन्यवादः अग्रिमे श्यामलाभगिनी वक्तुं शक्नोति वा पठितुं शक्नोति वा तदा तदा गुरुः अवदत् तथा आरभ्य श्यामलाभगिनी अस्तु पठा तदा गुरुः अवदत् राजन दानं नाम प्रदत्तस्य वस्तुनः धनस्य वा सम्पूर्णतया स्वामित्वत्यागस्य अङ्गीकारः परन्तु अधुनापि कृतस्य दानस्य विषयं स्मरन् भवान् तद्विषये मां पृच्छन् दृष्टि किमस्य पृच्छन् अस्ति किं वदति गुरु वदतु स्वशब्दैः भवति तथा गुरुः वदति राजन् राजन् दानं नाम प्रदत्तस्य दानं दानं वस्तु दा, दानं नाम वस्तुनः धन धनः सम्पूर्णतया स्वामित्व अङ्गीकरोति इति वदति स्वामित्वत्यागस्य अङ्गीकारः अङ्गीकारः इदं न मम इदं न मम इत्युक्ते वन्स् इट् इस् गिवन् एस् अ डोनेशन् स्वामित्वभावना त्यजतु इति तस्य अङ्गीकारः न भवेत् पश्यन्तु सर्वे सर्वेषां कृते वदामि तत् चतुर्थी चतुर्थी सम्प्रदाने इति सर्वे जानन्ति चतुर्थी विभक्ति इत्युक्ते दानं यथा दानार्थे चतुर्थी इति वयं वदामः तत्र सम्प्रदान इति कारक कारकस्य नाम अस्य सम्प्रदा सम्प्रदान् इत्युक्ते सर्वस्मिन् तत्र स्वार्थभावनया वा स्वामित्वभावनया अहं किमपि न करोमि इदं न मम अधुना तत मम स्वामित्वं नास्ति अहम् एतस्य स्वामी न अस्मि तत् सम्प्रदान दानार्थे चतुर्थी सम्पूर्णतया ज्ञानं दानं यदा भवति चे संप्रदान इति परन्तु तत्र गुरोः कृते दानम् अहं ददामि गुरुः तस्य दानस्य किं करोति इति राज राजा एतत् एतादृशं चिन्तनं करोति तत् न योग्यम् अधुना राज्ञः अधिकारः न स नास्ति एव एकवारं दानं कृतवान् आसीत् अधुना राज्ञः अधिकारः एव नास्ति तत्र इति विचारः अग्रिमे शरे धन्यवादः हा अग्रिमे तत्र राधा भगिनी राधा भगिनी तत्र तथा भगिनि इत्यस्य आयमेव अर्थः यत् इदानीमपि uh, तदस्तु uh, आत् आत्मनः एव इति भाव भावनः भावयन् अस्ति इति, इति? इति. भवान् भावयन् भावयन् अस्ति इति इत्युक्ते किम् इत्युक्ते दानं आ, राजा कृतवान् परन्तु इतोपि अधुना अपि तस्य मनसि तस्य साधनमस्ति इति तस्य तस्य अस्ति इति भावना अस्ति हि स्टिलिनात्मनः एव मम एव इति मम भावना अस्ति मम त्वम् अस्ति इति मम मम भावना अस्ति मम एव हा पश्यन्तु अत्र एकम् उदाहरणम् अहं स्मरामि भगवद्गीता तत्र प्रथमं श्लोकः प्रथमः श्लोकः किमस्ति जयन्ति भगिनी वदति वा प्रथमः श्लोकः भगवद्गीतायां द वेरि फस्ट् मामका पाण्डवाः धृतराष्ट्र पृच्छति तत्र पश्यन्तु एकः एव श्लोकः भगवद्गीताया धृतराष्ट्र एकम् श्लोकम् एव उक्तवान् आसीत् मामकाः पाण्डवाः तत्र विभाजनम् दृश्यते पण्डुपुत्राणाम् पण्डोः पण्डोः पुत्र पण्डुपुत्राणां धृतराष्ट्रपुत्राणां तत्र विभाज माम का मम ममत्वं ममत्वसैत् पृच्छति मम पुत्राः पण्डोः पुत्राः किं कुर्वन्ति इति वदति वस्तुतः तत्र पण्डुमहाराजः दिवङ्गतः तत्र तेषां पुत्राणां तस्य पुत्राणां कृते तत्र तेषां कृते पाण्डुपुत्राणां कृते ममत्वभावना आत्मीयता तु भवेदेव परन्तु सः किम् पृच्छति मामकाः मम पुत्राः पण्डुपुत्राः किं कुर्वन्ति मामकाः पांडवा, तत्र एव विभाजनम् तत्र ममत्वभावनया एव सर्वं भवति अग्रिमे तत् नरसंहारः एतत् सर्वं युद्धक्षेत्रे यत्किमपि भव अभवत् तत् कारणं किम् तस्य मूलकारणं मामका इदम् मम एव अतः आत्मनः एव इति भवान् भावयन् भावयन् इत्युक्ते चिन्तयन् अस्ति इति अग्रिमे एवम् एवं तर्हि भवान् दानफलं न प्राप्स्यसि चिन्तय इति चिन्तयति तर्हि फलं दानस्य फलं न प्राप्नोति इति Hmm. Uh, अस्तु तावत् भवान् पृच्छ पृच्छन् अस्ति वदामि hmm. uh, वस्तुतः भवता मह्यं प्रदा प्रदत्तानां वस्तूनाम् hmm. आवश्यक आवश्यकता मम यावत् स्यात् ततोपि अधिकं तेषाम् एव अस्ति अतः एव अहं तानि वस्तूनि तेभ्यः दत्तवान अस्मि अनेन भवन्तं प्रति धिकारः प्रकटनीयः इति तु मम उद्देशह नास्ति इति गुरु वदति तत् दत्तवान् वस्तु मम आवश्यकता नास्ति तत् कारणम् अहं तेभ्यां दत्तामि मम तस्यां प्रति धिक्कारप्रकटणीयं तस्य उद्देशं किमपि नास्ति इति ऐ डोण्ट् नीड् ऐ डि नीड् इट् सो ऐ गेव् इट् आफ़् टु सम्बडि एल्स् नाट् टु तत्र आवश्यकताम एव नास्ति मम मनसि तेषां विषयस्य आसक्तिः एव नास्ति अतः अन्येषां कृते अहं चिन्तयामि अतः तेभ्यः दत्तवान् अनेन भवन्तं प्रति गीकारः प्रकटनीयः इति तु मम उद्देशः एव नास्ति तत् मम मनसि अवमानं करणीयं वा अपमानं करणीयम् इति उद्देशः एव नास्ति अन्तिमम् अन्तिममपि पठतु गुरोः प्रभावजनकवचोभिः राजा स्वदोषं विज्ञाय गुरुं क्षमां प्रार्थयत् दानस्य महत्त्वं च अजानात् ते वाक्य राजा जानाति तस्य दोषं भवति दोषं विज्ञाय अत्र अत्र विज्ञाय विषयस्य शब्दस्य विषये अपि तत्र व्याकरण अंश विज्ञाय तत्र विज्ञान विज्ञान विज्ञाय इति यप्रत्यन्तरूपं विशेषरूपेण तस्य अवगमनं भवति स्वदोषं विज्ञाय तस्य स्वदोषं ज्ञात्वा इति अपि सत्यं परन्तु तत्र विज्ञाय यदा उपसर्गस्य रूपेण उपसर्गं यदि योजनयामः चेत् तत्र विज्ञाय प्रकर्षेण तत् अर्थप्रकटिकरं भवति विज्ञाय प्रकर्षेण ज्ञात्वा विशेषतया ज्ञात्वा पश्यन्तु तत्र ज्ञाधातोः कृते सर्वेषां कृते वदामि ज्ञाधातोः कृते अभिज्ञानम् विज्ञानम् एवं सर्वम् अभिज्ञान इत्युक्ते सर्वतोपरि ज्ञानस्य उपसर्गस्य योजनेन तत्र प्रकर्षेण ज्ञानम् इति भवति तत् विज्ञाय गुरुम् क्षमाम् प्रार्थयत् दानस्य महताम् च अजानात् इति सः अवगतवान् ज्ञानस्य महता का ज्ञा किं महत्त्वम् इति सः ज्ञातवान् अस्तु तद् दानं कथं करणीयमस्ति एकस्मिन् विषये एषा कथा धन्यवादः धन्यवादः भगिनी एकमेकं वदन्तु सः कण्ट्रोल् न कर्वारि मत्लब् अहं वदामि प्रथमं कृष्णः भगवद्गीतायां सप्तमध्याये वदति खलु दानं कथं दातव्यम् इति त्रिगुणात्मकं विषये दानं कन्न विवरणं द दा, ददो ददाति खलु दातव्यम् इति विद्दानं दीयते अनुपकारिणे देशे काले पात्रे च तद्दानं सात्विकं स्मृतम् यत्तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः दीयते च परिक्लिष्टं तद्धानम् राजसंस्मृतम् अदेशकाले यद्धानम् अपात्रेभ्यश्च यते असत्कृतम् अवज्ञातं तद्धानं तद्दा तद्धानम् समुदाहृतम् त्रिविक त्रिवि सात्विकधानं राजसधानं रामसधानम् इति कृष्णः उक्तवान् यद्दानं दातव्यम् इति कर्तव्यं भूत्वा कर्तव्य भूत्वा यद्धानं दीयते काले पात्रे तद्धानं दीयते तत् सात्विकधानम् इति उच्यते यद्धानं प्रति भूत्वा दीयते तद्धानं राजसम् उच्यतेकाले अपात्रे यद्धानं दीयते तत् तामस धानम् इति कन्नन् भगवद्गीतायाम् उक्तवान् तदेव बहु सम्यक् बहु सम्यक् भगिनी उत्तमम् उत्तममस्ति सम्यक् अस्तु अन्ये अन्ये वदन्तु रमा राधाभगिनी भारत भारतमहोदय वीणा भगिनी श्यामला भगिनी एकमेकं वदन्तु सरे भारतमहोदय किं चिन्तयति वदति वा अन्य अन्य कोऽपि आरम्भं करोतु राधाभगिनी वदतु वीणाभगिनी वदतु दानं किमपि अपेक्षा विना ददातु कथा प्रदर्शयतु अपेक्षारहितं दानम् अपेक्षारहितं दानं भवेत् इति निरपेक्षभावनया दानं करणीयम् इति सत्यं धन्यवादः अग्रिमे हा वदतु वदतु हा किमपि दानं वयम् ददाति त तद् दानं भवान् सः ददाति इति मनसि कर्तुं ददाति हा इत्युक्ते तत्र भगवतः प्रेरणया अहं दानं करोमि इति तत्र भगवत भक्ति भगवद्भक्तिस्वरूपम् एव तत्र भवेत् इति भवती वक्तुमिच्छति एवं खलु दानं करणीयं तत्र मम मनसि अहङ्कार न उपजयेत् तत्र अहङ्कार अहङ्कारेण हा एवं सन्तोषेण दन्तुं ददाति दानं भवेत् इति योग्य योग्य दानं भवति योग्य अधुना अग्रिमे कस्य अवसर रमाभगिनी राधाभगिनी भारत वदतु रमाभगिनी राधा भगिनी भगिनी कोलाक्युलि इट् इस् सेड् दट् अदर् हेण्ड् शुड् नाट् नो वेन् यु गिव् दानं युर् रैट् हेण्ड् युर् लेफ्ट् हेण्ड् शुड् नाट् नो धन्यवाद भगिनी उत्तमम् उत्तमम् डेफिनेट्लि डेफिनेट्लि प्रादेशिकभाषासु सर्वेषु स्थलेषु तत्र अस्ति एतत् एव सत्यं अस्तु अन्य कोऽपि वक्तुम् इच्छति वा भारतमहोदय इच्छति वा धन्यवादः अस्तु वयमत्र स्थगयामः प्रार्थना वदतु राधा भगिनी वदति प्रार्थना वयं समापयामः आं भगिनि सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग् भवेत् अथतोमा सद्गमय तमसोमा ज्योतिर्गमय मृत्योर्मा अमृतम् गमय ॐ पूर्णमतः पूर्णमिदम् पूर्णा पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिशान्तिशान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः भगिनी धन्यवादः धन्यवादः